स गत्वा विविधान्च्छैलान् देशान् बहुविधांस्तथा अदृश्यन्त्याख्यया वध्वाथा श्रमेऽनुसृतोऽभवत् अथ शुश्रावसङ्गत्या वेदाध्ययन निःस्वनम् पृष्ठतः परिपूर्णार्थम् शक्तेर्भार्या महाभागतपोयुक्ता तपस्विनी वसिष्ठ उवाच पुत्रिकस्यैष साङ्गस्य वेदस्याध्ययनस्वनः पुरा साङ्गस्य वेदस्य शक्तेरिव मया श्रुतः अदृश्यन्त्युवाच अयम् कुक्षौ समुत्पन्नः शक्तेर्गर्भः सुतस्य ते मुने गन्धर्व उवाच एवमुक्तस्तया हृष्टो वसिष्ठ श्रेष्ठभागृशिः अस्ति सन्तानमित्युक्त्वा मृत्योः पार्थ न्यवर्तत ततः प्रतिनिवृत्त स तया बद्ध्वा सहानघ कल्माषपादमासीनम् ददर्श विजने वने स राजा क्रुद्ध उत्थाय भारत आविष्टो रक्षसोऽग्रेण इयेषातुम् तदा मुनिम् अदृश्यन्ती तु तम् दृष्ट्वा क्रूरकर्माणमग्रतः भयसंविघ्नया वाचावसिष्ठमिदमब्रवीत् असौ मृत्युरिवोग्रेण दण्डेन भगवन्नितः प्रगृहीतेन काष्ठेन राक्षसोभ्येति दारुणः